हरि ओम् श्रीता रामचन्द्राभ्याम् श्री नमः अथ रामाने रामायणे अयोध्याखण्डे त्रयोविंश सर्गः लक्ष्मणस्य ओजस्वी वचनम् तेन दैवस्य खण्डनम् पुरुषार्थस्य मण्डनम् च तस्य श्रीरामाभिषेक विरोधिभिः सह युद्धमुद्यमश्च इति ब्रवति रामे तु लक्ष्मणो वा क्षिर इव ध्याता सहसा दैन्यः सयोः सदा तु बद्धा भ्रुकुटिम् भ्रूर्मध्ये न रषभ निश्वास महासर्पो बिलस्थैव रोषितः तस्य दुष्प्रतिवीक्षम् तत् भ्रुकुटीसहितं तदा बभव क्रुद्धस्य सिंहस्य मुखस्य सदृशम् दुः मुखम् अग्रहस्तम् हस्ति हस्तमिवात्मनः तिर्य ऊर्ध्वम् शरीरे च पातयित्वा शिरोधाम् अग्राक्षणा वीक्षमाणस्तु तिर्यभ्रातरम् अब्रवीत् अस्थाने सम्भ्रमो यस्य दातो वै सुमानयम् धर्मदोषप्रसङ्गेन लोकस्या नतिशङ्कय कथम् सद्विधो वक्तुमर्हति यथा ह्येवम् शौण्डीरम् क्षत्रियशभ किं नाम कृपणम् देवं, अशक्तं अभिशंसे पापयोस्वेकथं नाम तयोः शङ्करन् विद्यते सन्ति धर्मोपधासक्ता धर्मात्मं किं न बुध्यते तयो सुचरितं सार्थम् साक्षात्परिचिः स्यतु यदि नैव विवसितम् स्याधि प्रागेव राघव तयो प्रागेव दत्तश्चभृतश्च सह लोकविद्वीष्टमारब्धम् तदन्यस्याभिषेचनम् न स्वहे सयितुम् वीरे तत्र मे क्षन्तुमर्हसि येनैवम् आगता द्वैतम् तव बुद्धि महर्मते सोऽपि धर्मो ममद्वेश्यो द्वेषो यत्प्रसङ्गाद् विमूह्यसि कथम् तम् कर्मणा शक्त कैकेयी वशवर्तिनः करिष्यसि पितुर्वाक्यम् अधर्मीष्ठम् विगर्हितम् यदयम् किल्विषाधेद कुतोप्येवम् न गृह्यते गायते तत्र मे दुःखम् धर्मसङ्गः च गर्हितः तवायम् धर्मसंयोगो लोकस्याश्च विगर्हितः मनसापि कथं गामम् कुर्या त्वाम् काम्बुवृत्तयो सस्यो हि तयोर्नित्यम् शत्रुः पितृभिधानय याद्यपि प्रतिपत्ति ते दैवी चापि न मे विक्लवो वीर्यहीनो यः सदैवम् अनुवर्तते वीरासम्भावितात्मानो न दैवं पर्युपासते दैवं पुरुषकारेण यः समर्थ प्रबाधितुं न दैवेन विपन्नार्थ पुरुष सोऽवसीदति द्रक्ष्यन्ति सद्य पौरुषम् पुरुषस्य च दैवमानुषयो अद्य व्यक्ताव्यक्तिर्भविष्यति अद्य मे पौरुषः तम् दैवम् द्रक्ष्यन्ति वै जनः ये दैवादाहसम् तेद्य दृष्टम् गाजाभिषेचनम् अत्यङ्कुशम् योदामम् गजम् धावितम् अहं दैवम् पौरुषेण निवर्तये लोकबालाः समस्तास्ति नाद्य रामाभिषेचनम् न च कृष्णा स्त्रियो लोक व्यन्यो किं पुनः पितः अरण्ये ते एव चतुर्दश समासः अहं तदाशां धक्ष्यामि पितुः तस्या च या तव अभिषेकविघातेन पुत्र राजाय वर्तते मद्बलेन विरुद्धाय न स्याद्दैव बलं तथा प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ऊर्ध्वं वर्ष सहस्रान्ते प्रजापाल्यमनन्तरम् आर्यपुत्र कई वनवास गयी पूर्वराजर्षिवृत्ति वनवासो प्रया निक्षेप्युत्रु पुत्रविपाल सचैद्रजनने काम शंकय न राजम जाम ई प्रति जाने च ते वीरे मा भूवं वीरलोकभक् राज्यं च अहं वेलेव सागरम् मङ्गलै अभिषिञ्च तत्र त्वम् व्यापृतो भव अहम् एको मयि पालान् अलं वारयितुम् बलयत् न शोभार्थो इमो बाहू नासिराबन्धनाथाय न ना च रस्तम्भैतवे अमित्रमथनाथाय सर्वमेतच्चतुष्टयम् न चाहम् कामयेत्यर्थम् यस्यात्रोर्मतो मम असि न तीक्ष्णधारेण विद्युच्च विचवर्चस प्रगृहीतेन वै शत्रुम् वज्रिणम् वाहन कल्पये खड्गनिष्पेष निष्पिष्टै गहना दुश्चरचि हस्तैश्वरथिहस्तो शिरोभिः भवितामही खड्गधारा हतामेद्य दिप्यमाना इव अग्नयः प्रतिषन्ति द्विशो भूमौ मेघा इव स प्रगृहीत शरासने कथम् पुरुषे आनीष्य पुरुषाणाम् मयि स्थिते बहुभीश्चैकमत्यस्यन् एकेन च बहूञ्जनान् विनियोक्ष्यामियम् बाणान् नुवजीगजमर्मसु अद्य मेत्र प्रभावस्य प्रभाव प्रभविष्यति अन्यच्चाभ्रभुताम् कर्तुम् प्रभुत्वं च तव अद्य चन्दनसारस्य केयुरामो क्षणस्य च वसूनां च विमोक्षस्य सुहृदाम् पालनस्य च अनुरूपो इमो बाहू राम कर्म अभिषेचन विघ्नस्य कर्तॄणां ते निवारणे द्रवीमिको मया वियुज्यताम् तवा सुरुत्राणय च सुजनैः यथा तवेयं वसुधावचा भवेत् तथैव मां साधि तवास्मि किङ्कर विमृज वाक्यम् प्रशान्त च सकृत् सलक्ष्मणम् राघवमुंश वर्धन उवाच पित्रोर्वचनैव वसितं निबोध मामेश हि सौम्यतः सत्पथ इत्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकाव्योध्याकाण्डे त्रयोविंच सर्ग श्रीसीतारामचन्द्रार्पणमस्तु